गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायं सिक्स् गरुड उवाच अभिसाधनयुक्तस्य तीर्थदानरतस्य च अकृते तु वृषोत्सर्गे परलोकगतिर्नहि तस्मात् कृष्ण वृषोत्सर्गकर्तव्य इति मे किं फलं वृषयज्ञस्य पुरा केन कृतो हरे अनड्वान् कीदृशप्रोक्तकस्मिन् काले विशेषतः को विधिस्तस्य निर्दिष्ट सर्वं मे कृपया वद श्रीकृष्ण उवाच यदिहासं महापुण्यं प्रवक्ष्यामि कगेश्वर ब्रह्मपुत्रेण यत् प्रोक्तम् राजानम् वीरवासनम् विराधनगरे राजा वीरवासननामकः धर्मात्मा सत्यसन्तश्च वदान्यो विप्रतुष्टिकृत स कदाचिद्वनम् वीरो महात्मा खगम् गदः किञ्चित् प्रष्टुमनास्तार्क्ष्य वसिष्ठस्यश्रमम् ययौ नमस्कृत्य मुनिम् तत्र कृदासनपरिग्रहः प्रश्रया वनदो राजावप्रचर्षि संसदि राजोवाच मुने मया कृतो धर्मो यथाशक्तिप्रयत्नदः यमस्य शासनम् श्रुत्वा बिभेमि नितरां हृदि यमञ्जयमदूतांश्च निरयान् घोरदर्शनान् न महाभाग ताधा वददयानिधे वसिष्ठ उवाच धर्मा बहुविधाराजन्वर्ण्यन्ते शास्त्रकोविधैः सूक्ष्मत्वा न विजानन्ति कर्म मार्गविमोहिताः दानं तीर्थं तपो यज्ञाः संन्याः स पैतृको महः धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः यष्टव्या बहव पुत्रा यद्येकोऽपि यजेद वाश्वमेधेन नीलं वा वृषमुत्सृजेद ब्रह्महत्यादिभावानि ज्ञानाज्ञानकृतानि च नीलोद्वाहेन शुभ्ये तु समुद्रप्लवनेन वा एकादशाखिराजेन्द्र यस्य नोत्सुज्यते वृषः प्रदत्त्व श्राद्धायिस्तु भवेद यथा कथञ्चित् कर्तव्यस्तीर्थे वा पतनेधवा वृषयज्ञायि प्रमुच्यते नान्यथा साधनैः खगा वृषभं पञ्चकल्याणं युवानं कृष्णकम्बलं गोयूथमध्ये वत्सकाभिर्द्वाभ्याञ्चैकयाथग विवाह्य मङ्गलद्रव्यैर्मन्द्रवत्तं समुत्सृजेद इह रतीतिषडृद्भिर्हेमं कुर्याद्विभावसोः कार्तिक्यां माकवैशाख्यां सङ्ग्रामे पादपर्वसु तीर्थे क्षयाहे जविशेषेण प्रशस्यदे लोकितो यस्तु वर्णेन मुखे पुच्चे च पाण्डुरः पीधुरविषाणेषु सनीलो वृष उच्यते श्वेदवर्णो भवेद्विप्रो लोकितः क्षत्र उच्यते पीतवर्णो भवेद्वैष्यशूद्रकृष्णस्मृतो बुधैः यथा वर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु अथवा रक्तवर्णस्तु सर्वेषामेव शस्यते पिता पितामहश्चैव तथैव प्रपितामहः आशासते सुदं जातं वृषोत्सर्गं करिष्यति धर्मस्त्वं जगदानन्ददायकः अष्टमूर्तेरधिष्ठानमदः शान्तिं प्रयच्छ मे गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर धर्मराजस्य पुरदो वच्यं मे सुकृतं वृष दक्षिणां सेत्रिशूलाङ्गं वा मोरौ चक्रचिह्नितम् इति सम्प्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः वृषम् तत्सदरीयुक्तम् पूजयित्वा समुत्सृजेद तस्माद् राजन्विधानेन वृषोत्सर्गम् समाचर बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव आसीत्रेदायुगे पूर्वम् विदेहनगरे नृप ब्राह्मणो धर्मवत्सेदिस्वकर्मनिरदसुधीः विष्णो भक्तोदितेजस्वी यद्धा लाभेन तुष्टिकृत पितृपर्वणि सम्प्राप्ते कुशार्यो पाननं ययौ अडन्नितस्तदस्तत्र चिह्नन् कुशफलाशकं सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः विभ्रान्तमनसं गृह्य प्रत्युग्जग्मुर्विहाय सा बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकं वनाध्वनान्तरं निन्युर्नदीनदसमाकुलं स तत्र नगरं राजन्ददर्श बहुविस्तरं गोकुलद्वारचितं सौधप्रासादमण्डितं चत्वरापणपण्यादिनरनारी समाकुलम् तुल्यद्वन्त्वाभिनिर्घोषवीणापडहनादिदन् कांक्षिक्षुधार्थितान् दीनान् मलिनान्विगदजौ विकस्तौ जसः ततोऽधितुष्टन् मालिनान्वस्त्र खण्डसमावृतान् अग्रजो हृष्ट पुष्टांश्च स्वर्णवस्त्रोपशोभितान् ततोऽपि सुरसम्काशान् सदृष्ट्वा विस्मितो भवद किं स्वप्न उदमाया वै मदीयो मानसो भ्रमः सन्दिहानम् द्विजम् निन्युपुरुषारजसन्निधिम् सदर्श विप्रस्तु स्वर्णप्रासादमन्दिरे सिंहासनम् महादिव्यम् क्षत्रचामरविजितं तत्रोपविष्टम् राजानम् किरीडक न कोज्वलं महत्याजश्रियायुक्तं स्तूयमानं सुवन्दिभिः राजाभिदृष्ट्वा तं विप्रम्प्रत्युध्याय कृताञ्जलिः पूजयामास विधिवन्मधुपर्काशनादिभिः सन्तुष्टमनसं देवमस्तौषि परया मुदा मद्य मे सबलं जन्म पावितञ्च कुलं प्रभो विष्णुभक्तस्य धर्मस्य यत्ते दृग्गोचरम् गतः नत्वा स्तुत्वा बहुविधमुवाचनुव सृपः यद समागतो देवः पुनस्तत्रैव नियताम् यदि श्रुत्वा वजो राज्ञ पप्रच्छ द्विजभुङ्गवः ब्राह्मण उवाच कोऽयं देशकृतो लोका उत्तमा मध्यमाधमाः केन पुण्येन तु भवान् परमेष्ट्यविभूषिताः किमर्थमहमानीत पुनस्तत्रैव नीयते अपूर्वमिव पश्यामि सर्वं स्वप्नगदो यथा राजोवाच स्वधर्मनिरदो यस्तु सदा विरक्पद इन्द्रियार्थेभ्यः समे पूज्यो न संशयः तीर्थयात्रापरो नित्यं वृषोः सर्गविशेषविद सत्यदानपरो यस्तु स नमस्यो दिवौः स दर्शनार्थमिहानिदपूजार्थश्च परन्तप अनुगृहाणा मां देवक्षमस्व मम साहसं युत्युक्त्वा दर्शयामासमन्धृणाम् संज्ञया ब्रुवः वदिष्यति समग्रम् ते स्वयम् वक्तुम् न साम्प्रदम् नृपस्य च विपश्चिदुवाच पूर्वजन्मनि वैश्योऽयम् विश्वम्भरयुति श्रुतः विराजनगरे विप्रद्विजदेव विभूषिते वैश्यवृत्त्या सदा जीवन्कुटुम्बपरिपालकः गवां शुश्रूषको नित्यं ब्राह्मणानां च पूजकः पात्रदानपरो नित्यमादिधेयाग्रिसेवकः गार्सत्यं विधिवच्चक्रे भार्यया सत्यमेधया स्मार्तेन लोका न जयच्छ्रौतेन त हविर्भुजः कदाचित् बन्धुभिः सागं कृत्वा तीर्थानि भूरिशः यावदायादि सदनं लोमस्यं दृष्टवां लोमः शम्पथि दण्डवत्प्रणि दण्डवत्प्रणिपत्याशुकृताञ्जलिपुडं स्थितं पप्रच्छविनयोपेदं करुणावाजिवाजिधिः ऋषिरुवाज उद आगम्यदे साधो ब्राह्मणैर्बन्धुभिर्युधः दृष्ट्वा त्वाम् धर्मनिलयम् प्रक्लिन्नम् मानसम् मम विश्वम्भर शीर्यमानं शरीरं शरीरम् हि ज्ञात्वा पुरस्थितम् भार्यया धर्मचारिण्या तीर्थयात्राम् विनर्गदः कृत्वा तीर्थानि विधिवद् विश्राण्य यावत् व्रजाम्यहं वेश्म भवान् दृष्टिपथं गतः लोमच उवाच तीर्थानि सन्धिभूरिणि वर्षायस्मिन् भारते शुभे यत्त्वया क्युपचीर्णानि तानि सर्वाणि मे वदा वैश्य उवाच गङ्गा सूर्यतनया सूर्यतनयामः पुण्या सरस्वती दशाश्व ब्रह्मा सुरेश्वरः तीर्थराजस्तदपाशी महादेवोदयानिधिः मृतानां यत्र जन्तूनां कर्मे जपति तारकम् पुलहस्याश्रमम् पुण्यम् फल्गुतीर्थञ्च गण्डकी चक्रतीर्थं नैमिषञ्च शिवतीर्थमनन्तकम् गोप्रतारकनागेशमयोध्या बिन्दुसंनिधम् यत्रास्तमुखविदः साक्षाद् राजीवलोचनः अग्नेयम् वायु कौबेरं कौमारम् भूरुहाम् पुनः सौकरम् मधुरा यत्र नित्यम् सन्निहतो हरिः पुष्करम् सत्यतीर्थञ्च ज्वालतीर्थम् दिनेश्वरम् इन्द्रतीर्थं कुरुक्षेत्रं यत्र प्राजीसरस्वती ताबीपयोष्णी निर्विन्द्या मलयकृष्णवेणीका गोदावरीदण्डकञ्जताम्ब्रचूडं सदोदकं द्यावा भूमीश्वरं दृष्ट्वा श्रीशैलपर्वतेश्वरः असङ्ख्य लिङ्गतीर्थानि यत्र सन्धिसदा मुनि वेङ्कडाद्रौमः तेजा श्रीरङ्गाख्यस्वयं हरिः वेङ्गडी नाम तत्रैव देवी महर्ष महिषमरुदिनी चन्द्रतीर्थं भद्रवटकावेरी कुडिलाचलौ अवडो दाताम्रपर्णो त्रिकृढकोल्लको गिरीः वासिष्ठं ब्रह्मतीर्थञ्च ज्ञानतीर्थं महोदधिः ऋषिकेशं विराजञ्च विशालं नीलपर्वतः भीमकूटश्वेदगिरी रुद्रतीर्थमुमावनम् अवापगिरिजा देवी तपसा यत्र शङ्करं वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयं निमज्ज यत्र काकोलाराजहंसत्वमाययुः असुरो यत्र देवत्वम् अवापस्नानमात्रतः विश्वरूपं वन्दितीर्थं रत्ने कुहकाचलक नरनारायणम् दृष्ट्वा मुच्यते पापकोटिभिः सरस्वती दृषद्वत्यौ नर्मदा शर्मदा नृणाम् नीलकण्ठम् महाकालम् पुण्यम् चामरकण्डकम् चन्द्रभागावेत्रवदी वीरभद्रम् गणेश्वरम् गोकर्णम् बिल्वतीर्थञ्च कर्मकुण्डम् सतारकम् स्नानमात्रेण यत्राशुमुच्यते कर्मबन्धनाद अन्यान्यपि च तीर्थानि कृतानि कृपया तव उत्पद्यते शुभबुद्धिसाधूनां यदनुग्रहः एकदा सर्वतीर्थानि करुणा साधवोऽन्यदाः अनुग्रहाय भूतानां चरन्ति चरितव्रताः त्वं गुरु सर्ववर्णानां विद्यया वयसाधिकः अथ पृच्छाम्यकं किञ्चिदाधिभूतं चिरन्तनं किं कुर्यां कम्नु पृच्छे कं मनो मेदिचलं मुने निःस्पृतं ब्रह्मविषये विषयेष्वदिलालसं मनागपिनः सह देविरकं तिमिरं ब्रुवद मोहितं विविधैर्भावै कर्मणां क्षेत्रमुत्तमं शान्तिं यथा समायादिसम्पन्नमिव भूसुर विवेकप्रवणं शुद्धम् यदा स्यात् कृपया वद ऋषिरुवाच मनस्तु प्रबलम् नित्यम् सविकारम् स्वभावतः वशम् नयन्दिकरिणम् प्रमत्तमपि हस्तिपाः तथापि साधु सङ्गत्या साधनैरप्यतन्द्रितः त्रिवेण भक्तियोगेन विचारेण वशं इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् नारदो कथयन्मह्यं स्ववृत्त गतजन्मनः नारद उवाच कस्यचिद्विजमुख्यस्य दासि पुत्रः पुरा मुने शिक्षितो बालभावेऽपि पाठितो नितरामहं तत्रापि सङ्गतिर्जादामहदाम् पुण्यकर्मणाम् प्रावृत्काले मम गृहे स्थितानां भाग्ययोगतः शुश्रूषणानुवृत्त्या जप्रश्रयेण दमेन च सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन् मनीषा निर्मलायेन जादा मम यया विष्णुमयं सर्वमात्मन् सर्वमात्मन्येव ददृशिवान् मुनय उजुः शृणु वत्सप्रवक्ष्या मोकिता य तव बालक येन वैध्रियमाणेन इहामुत्रसुखम् भवेद देवतुर्यम् मनुष्याश्च संसारे विविधा जनाः निबद्धा कर्म पाशैस्ते भुञ्जन् भोगान् पृथग्विधान् देवत्वं याधिसत्त्वेन रजसा च मनुष्यताम् तिर्यक्त्वं तमसा जन् दुर्वासनानुगतो पुनर्जर्म मा दुर्लब्ध्वा यवंगत्वा पुनर्जन्मम् योनिस्था कर्मभूरपि मानुष्यं दुर्लभं लब्ध्वा कदाचिद् दैवयोगतः अनुग्रहेण महदां हरिं ज्ञात्वा रोगग्राहमोहजालमपारं भवसागरं नपश्यामि तितीर्षो तितीर्षोरन्यद्रामस्मरणं विना न वनीयं यथा दध्नो ज्योतिकाष्ठादभिक्वजिद मन्थनैः साधनैरेवं परं ज्ञात्वा सुखी भवेद आत्मा नित्यो व्ययशक्त्यः सर्वग सर्वभृन्महान् अप्रमेय स्वयं ज्योतिरग्राह्यो मनसापि यः सच्चिदानन्दरूपोऽसौ सर्वप्राणिहृदि स्थितः विनश्यत् स्वपि भावेषु न विनश्यति स्थितस्तेजो जले तथा आत्मा सर्वत्र निर्लेप पार्थिवेषु यथानिलः भक्तानुकम्बी भगवान् साधूनां रक्षणाय च आविर्भवति लोकेषु गुणीवाञ्चै प्रदीयते एवं विवेकत्वया यो बुद्ध्या संशीलये धृति भक्तियोगेन सन्तुष्ट आत्मानन्दर्शये दजः पदकृतार्थो भवति सदा सर्वत्र निःस्पृहः अतो हारमुत्सृज्य सानुबन्धे कलेवरि चरे दसङ्गो लोकेषु स्वप्नप्रायेषु निर्ममः क्व स्वप्ने नियतम् धैर्यमिन्द्रजाले क्व सत्यदा क्व नित्यदा शरन्मेघे क्व वा सत्यं कलेवरि अविद्याकर्मजनितं दृश्यमानं चराचरं ज्ञात्वा चारवची योगी ततः सिद्धिमवाप्स्यसि इति उक्त्वा ते गदा सर्वे साधवो दिनवत्सलाः सोऽकं तदुक्तमार्गेण तथैवाचरमन्वासं ततो चिरेणात्मनिदं दृष्टवानहमद्भुतं सदानन्दम् शरचीतांशुनिर्मलं निषित्य सुखसन्दोहैर्मां कृत्वाधिकसस्पृहम् अन्तर्हितं महतेजो यथा सौदामिनी दिवीं भक्त्या तदेव मनसि भावयन्नहमद्भुतं पादेकलेवरं त्यक्त्वा गतवान् हरिमव्ययं तत् स््येच्छया पुनर्ब्रह्मन् ब्रह्मणो मे भवज्जनिः अनुग्रहाद् भगवदस्त्रिषु लोकेषु निःस्पृश आपीडयन्मुहुर्वो नां गायमानश्चरम्यहम् इत्युक्त्वा मे स्वानुभवं यौ यादृच्छिको मुनिः ममापि परमाश्चर्यं सन्तोषश्च महान्भूत अधस्ते साधु सङ्गत्या भक्त्या च परमात्मनः विशुद्धम् निर्मलम् शान्तम् मनो निर्वृदिमेष्यति अनेकजन्मजनितम् पादकम् साधु सङ्गमे क्षिप्रम् नश्यति धर्मज्ञजलानाम् शरदो यथा वैश्य उवाच पित्वा देवाक्य पीयूषम् सा स्वान्तम् मे सर्वतीर्थफलम् मेद्य सञ्जातम् तव दर्शनाद यदि श्रुत्व वचस्तस्य प्रोवाच ऋषि सप्तमः लोमश्च उवाच हिताय तव राजेन्द्र त्रिवर्गफलमिच्छतः यत्त्वया सुकृतम् भूरि वृषोत्सर्गम् विना कृतम् मन्ये किञ्चित्करम् सर्वम् नीहारसलिलम् यथा वृषो किञ्चित् साधनम् न महीतले अनायासेन गच्छन्ति गतिं ते पुण्यकर्मणां वृक्षोत्सर्गकृतो येन अश्वमेधस्य याचक उभौ समौ मया धृष्टौ दिव्यौ तौ शक्रसन्निधौ दत्त्वं पुष्करं दत्त्वा वृक्षोत्सर्गं विधाय च ततो या हि साधो सर्वं कृतं भवेद विपश्चिदुवाच ततः पुष्करे वरे वराहरूपी भगवान् यत्रास्ते यत्नपूरकः चकारविधिवत् सर्वम् योगमृषिसत्तमैः गतानि बहुतीर्थानि ततो लोमशसङ्गतिः ततोऽधिकतरम् जाधं पुण्यम् नील विवाहजम् भुक्त्वा विषयन् दिव्यान्विमानवरमाश्रिदः तेनराजगुले राजकुले जन्मवीरसेनस्य धर्मदः वीरपञ्चाननाख्यातञ्चद् वार्गैकसाधनं प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः दिव्यरूपा भवन्पृष्टा गोपुच्छोदकशीकरैः सुरूपा पुष्टवपुषपश्यन्तो दूरसंस्थिताः ततो दूरतरा ये ज दृश्यन्ते मलिना जनाः दुर्भगामलिना रूक्षा कृष्या विगतवाससः ये चासूयामृकुर्वदे सर्वनिवेदितं राज्ञश्चरितं पूर्वजन्मनः कर्म्यं विचित्रमाख्यानं श्रुतं मे अधत्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गदः गृहं जगाम विप्रोसौ राजसेवकैः वसिष्ठ उवाच तस्माद्राजन् विश्वोत्सर्गं वरिष्ठं सर्वकर्मणां समाचरविधानेन यदि भीदोयमादभि वृक्षोत्सर्गसमं किञ्चित् साधनं न धिभरं मया धर्मरहस्यं दे कधितं राजसत्तम पदिपुत्रपदी नारी भातृरग्रे मृदा यदि वृक्षोत्सर्गं न कुर्वी दगां दद्या च उवाच श्रुत्वा वाक्यम् वसिष्ठस्य राजा मधुगुरीम् गदः चकार विधिवत् सर्वम् दृश्योत्सर्गमहम् खग गृहम् गत्वा स आत्मानम् कृतकृत्यमन्यत कालेन निधनम् प्रात्व निदो वैवस्वतानुगैः सकालनगरम् हित्वा गदो दूरतरम् पथि श्राद्धदेवपुरम् कृ पुत्र्येत्तम् खुर्त्य। खुर्त्य। दूदानपृच्छद पापिनो यत्र पात्यन्ते याम्यै पापशुद्धये पापविशुद्धये यत्र देवत्सधर्म धर्मविचेतनः गतं पापपुरम् तत्तु न द्रष्टव्यम् भवादृशैः अग्रे दृष्ट्वा दिव्यरूपस्तदा देवो देवगन्धर्वसंयुधः आत्मानम् दर्शयामास तस्य राज्ञो महात्मनः प्रणम्य दण्डवद्राजा कृताञ्जलिपुरस्थितः तुष्टाव बहुधा देवम् हर्षपूरितमानसः धर्म राजोऽराजानम् प्रशस्येदमुवाचः नियताम् देवलोकाय यत्र भोगा सुपुष्कलाः तद्वीरवाहन श्रुत्वा पप्रच्छसमवर्दिनं न जाने केन पुण्येन स्वर्गं नयसि मां विभो धर्मरा च उवाच त्वया कृतानि पुण्यानि दानं यज्ञाः सविस्तराः मधुरायां मृषोत्सर्गो वसिष्ठभजनात् किल धर्मस्वल्पोऽपि नृपदे यदि सम्यगुपासिद द्विजदेवप्रसादेन सयादि बहुविस्तरम् युद्धोक्तुवायमुनाभ्राधक्षणादन्तयययौ वीरबाहुर्दिवम् गत्वा देवैः सह मुमोदः श्रीकृष्ण उवाच मयादेकधितं पक्षिन्पृशयज्ञविस्तरः प्राणिनां कर्म निर्हारं श्रुत्वा पाभै प्रमुच्यते यदि श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे वृषोत्सर्गमहात्म्यनिरूपणं नामषष्ठोऽध्यायः ओ